श्रीहरये नमः अथ पञ्चषष्टितमोऽध्यायः श्रीसुक बलभद्र कुरु श्रेष्ठभगवान् रथमास्थितः सुहृदितृश्वरुत्कण्ठः प्रययौनं द गोकुलं परिष्वक्तचिरोत्कण्ठैर्गोपैर्गोपीभिरेव च रमो विवात्यपितरावासिर्भिरभिनन्दितः चिरं नः ैः सिशिचतुर्जलैः गोपौ वृद्धांश्च विधिवत्यभिष्ठैरभिवन्दितः या तवयो यथा सख्यं यथासम्भन्तमात्मनः समुपेत्यात गोपालान्हास्य धग्रहादिभिः विश्रान्तं सुखमासीनं पप्रच्युः पर्युपागताः पृष्टाश्चानामयं स्वेशु प्रेमग गत, कृष्णे कमलपत्राक्षे संन्यस्त अखिलराधसः कश्चिन्नो भान्तवा राम सर्वे कुशलमासते कच्चित् स्मरतनो राम यूयं दारसुतान्विताः दिष्ट्या कंसोऽहतः पापो दिष्ठ्या मुक्ता सुहृज्जनाः निहत्य निर्जित्य रिपोन्दिष्ट्या दुर्गं समाश्रिताः गोप्योगसन्त्य पप्रोरामसन्दर्शनादृताः कच्चिदास्ते सुखं कृष्णपुरस्त्रीजनवल्लभः कच्चित् स्मरति वा भन्तुन् पितरं मातरं च सः अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति अभि वा अनुसेवां महाभुजः मातरं पितरं भ्रातॄन् पतीन् पु शुश्रूरपि यदर्थे जहि मधा सार्ह दुस्त्यजान् स्वजनान् प्रभो तानः सत्यपरित्यज्जगतः सञ्चिन्न सौहृदः कथम् नु दातृशम् स्त्रीभिर्न श्रद्धीयेत भाषितम् कथं गृह्णन्ति वैचित्रकथस्य सुन्दर स्मिताबलोकोश्वति तस्मराधुराः किं नस्तत्कथया गोप्यः कथाकथयता पराः याद्यस्माभिर्विना कालो यदि तस्य तथैव नः इति प्रहसितं सौरेर्जल्पितं चारुवीक्षितं गतिं प्रेम परिष्वङ्गं स्मरन्त्योरुरुधुस्त्रियः सङ्कर्षणस्था कृष्णस्य सन्देशैर्हृदयङ्घमैः सान्त्वयामासभक् भगवानानुनय कोविदः द्वौ मासौ तत्र शावात्सीत्मतुं माधवमेव च रामक्षपासु भगवान् गोपीनां रतिमावहन् पूर्णचन्द्रकलां रुष्टे कौमुदी गन्तवायुना यमुनोपवने रेमे सेविते स्त्रीगणैर्व्रतः वरुणप्रेषिता देवी वारुणी वृषकोटरात् पतन्ती तत्वनं वनं सर्वं स्वगन्तेनाद्यवासय तं गन्थं मधुधारया वायुनोपहृतं भलः आग्रायो भगतस्तत्र ललनाभिस्समं पपौ यमान चरितो वनिता उभगीयमानचरितो वनिताभिर्हलायुधः वनीषु व्यचरक्षीभो मद्रविह्वललोचनः स्रग्व्येककुण्डलो मत्तो व्यैजयन्त्या च मालया बिभ्रत् स्मितमुकाम्भोजं श्वेतप्रालेयभूषितम् स आजुहावयमुनां जलक्रीडार्थम् ईश्वरः निजं वाक्यमनाधृत्यमत्तयित्यापगां भलः अनागता कलाग्रेण कुपितो विसकर्षः पापेत्वं त्वं मामवज्ञाय यन्नायासि मया लाङ्गलाग्रेण सदता कामचारिणे एवं निर्भत्सिता भीता यमुनाय यधुनन्दनम् उवाच चकिता वाचं पतिता पादयो नृपा राम राम महाभाहो न जाने तव विक्रमं यस्यैकांसेन विधृता जगति जगतः पते परं भावं भगवतो भगवन् मामजानती मोग्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सला ततो व्यमुञ्चत्यमुनां याचितो भगवान् बलः विजगाकजलं स्त्रीभिः करेणुभिरिवयि भराट् कामं विहृत्य सलिलात् उत्तीर्णायासिताम्बरे भूषणानि महार्हाणि दतौ कान्तिः सुभां स्रजं वसित्वा वासी नीले माला मामुच्यकाञ्चनी रेजे स्वलङ्कृतो लिप्तो माघेन्द्रयिववारणः अद्यापि दृश्यते राजन्यमुनाकृष्टवर्त्मना बलस्यानन्दवीर्यस्य वीर्यं सूचयति वहे एवं सर्व निशा याता एकेव रमतो व्रजे रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिता इति श्रीमद्भागवते महापुराणे दशमस्कन्दे उत्तरार्दे बलदेव विजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा, गोविन्द गोविन्द सद्गुरुनाथमहाराज की जय